ॐ नमो भगवते रुद्राय नमस्ते ते नमो नमस्ते रुद्र रुद्रते नमो नमस्ते रुद्र ते रुद्र रुद्रते ते रुद्रमन्यवे मन्यवे रुद्रते ते रुद्रमन्यवे रुद्रमन्यवे मन्यवे रुद्ररुद्रमन्यव उतो उतो मन्यवे रुद्ररुद्रमन्यव उतो मन्यव उतो उतो मन्यवे मन्यव उतोतेत उतो मन्यवे मन्यव उतोते उतोतेत उतो उतोत इषभ इषवेत उतो उतोत इषवे उतो इत्युतोक्त इषभ इषवेत इषवे नमो नमः इशभे तेत इशभे नमः इशभे नमो नम इशब इशभे नमः नम इति नमः नमस्ते ते नमो नमस्ते अस्त्वस्तु ते नमो नमस्ते अस्तु ते अस्त्वस्तुते ते अस्तु धन्वने धन्वने अस्तु ते ते धन्वने अस्तु बाहुभ्याम् बाहुभ्याम् धन्वने अस्त्वस्तु बाहुभ्याम् धन्वने बाहुभ्याम् बाहुभ्याम् धन्वने धन्वने बाहुभ्यामुतोद बाहुभ्याम् धन्वने धन्वने बाहुभ्यामुत बाहुभ्यमुतोत बाहुभ्याम् बाहुभ्यामुततेत उत बाहुभ्याम् बाहुभ्यमुतते उतो ते, ते नमो नमस्त उतो नमः ते नमो नमस्ते ते नमः नम इति नमः या ते यायात इषुरिषुस्ते यायात इषुः ishasheshate isasivatamah sivatameshate isasivatamah isasivatamah sivatameshoreshasivatamah sivatum sivakam sivatameshoreshasivatamah sivam शिवतमा शिवगुम् शिवगुम् शिवतमा शिवतमा शिवम् बभूव बभूव शिवगुम् शिवतमा शिवतमा शिवम् बभूव शिवतमेति शिव तमा शिवम् बभूव बभूव शिवगुम् शिवम् बभूव ते ते बभूव शिवगुम् शिवम् बभूव बभूवते ते बभूव बभूवते धनुर्धनुस्ते बभूव बभूवते धनुः ते धनुर्धनुस्ते ते धनुः धनुरिति धनुः shiva sarvya sarvya shiva shiva sarvyaayaaya sarvya shiva shiva sarvyaayaaya sarvyaayaaya sarvya sarvyaayaatavatavaya sarvya sarvyaayaatavat yaatavatavayaayaatavat yaatavatayaatavatayaatavataya Nuhasthaya Taya Tava Tava Tava Taya No Nastaya Tava Tava Taya Naha Tayano Nastaya Taya No Nastaya No Nurdra Nastaya No Nurdra रुद्रमृय मृडय रुद्र रुद्रमृडय मृडयेति मृडय याते ते यायाते रुद्र रुद्रते यायाते रुद्र ते रुद्र रुद्रते ते रुद्र शिवा शिवा रुद्रते ते, ते रुद्रशिवा रुद्र शिवा शिवारुद्र रुद्र शि पापका शिन्य पापकासिन्य घोरा पापका तया नो नस्तयातया नस्तनुवा तनुवानस्तयातया नस्तनुवा नस्तनुवा तनुवा नो नस्तनुवाशन्तमयाशन्तमया तनुवानो नस्तनुवाशन्तमया तनुवासन्तमया सन्तमया तनुवातनुवासन्तमया गिरिशन्त गिरिशन्तसन्तमया तनुवा तनुवासन्तमया गिरिशन्त शन्तमया गिरिशन्त गिरिशन्तसन्तमया सन्तमया गिरिशं ताभ्यभिगिरिशन्तसन्तमया सन्तमया गिरिशन् सन्तमयेति सम् त्वमयो गिरिशन्ताभ्यभि गिरिशन्त गिरिशन् ताभि चाकशीः चाकशेख्यभिगिरिशन्त गिरिशन् ताभि चाकशीः गिरिशन्तेति गिरि अभि चाकसीः चाकसेख्यभ्यभि चाकसीः चाकशीःति चाकसीः यामि श्वमि शुम् याम् यामि शृङ्गिरिशन्त यामि शृङ्गिरिशन्त इषुम् गिरिशन्त गिरिशन्ते शोमिषुम् गिरिशन्त हस्ते हस्ते गिरिशन्ते हस्ते गिरिशन्त हस्ते हस्ते गिरिशन्त गिरिशन्त हस्ते बिभर्षि बिभर्षि हस्ते गिरिशन्त हस्ते बिभर्षि गिरिशन्देति गिरि शन्तु हस्ते हस्ते भिभर्ष, हस्ते हस्ते हस्तेस्तवे अस्तवे बिभर्षि बिभर्षस्तवे अस्तव इत्यस्तवे शिवाङ्गिरिद्र गिरिद्र शिवागम् शिवाङ्गिरित्रतान्ताङ्गिरिद्र शिवागम् शिवाङ्गिरित्र ताम् गिरित्रतान्ताङ्गिरित्रगिरित्रताङ्कुरु गुरुताङ्गिरित्र गिरित्रताङ्कुरु गिरित्र गिरेत्र ताम करो करो तान्ताम करोमामा करोतां तान्ताम करोमा कुर्मामा करो करोमा हेगं से रहगं सेर्मा कुरु कुर्मा हेगं से हि माहिगुंसेर्हृगुंसेर्मा माहिगुंसेः पुरुषम् पुरुषगुम् हिगुंसेर्मा माहिगुंसेः पुरुषम् हिगुंसेः पुरुषम् पुरुषगम् हिगुंसेर्हृगुंसेः पुरुषम् जगज्जगत् पुरुषगुम् हिगुंसेर्हृगुंसेः पुरुषम् जगत् पुरुषम् जगज्जगत् पुरुषम् पुरुषम् जगत् जगदिति जगत् शिवेन वचसा वचसा शिवेन शिवेन वचसात्त्वा वचसा शिवेन शिवेन वचसात्त्वा वचसा त्वावचसा वचसा त्वागिरिशगिरिशत्वावचसा वचसा त्वागिरिश त्वागिरिशगिरिशत्वागिरिषाक्षाच्छगिरिशत्वागिरिशाच्छ गिरिशाच्छाच्छ गिरिश गिरिशाच्छा वदामसि वदामस्यच्छ गिरिश गिरिशाच्छा वदामसि अक्षा वदामसि वदामस्यच्छाच्छा वदामसि वदोमसेति वदामसि यथा नो नो यथा यथा नः सर्वगुम् सर्व नो यथा यथा नः सर्वम् नः सर्वगुम् सर्वन्नो नः सर्वमित् सर्वन्नो नः सर्वमित् सर्वमिदत् सर्वगुम् सर्वमिज्जगज्ज्जगदित् सर्वगुम् सर्वमिज्जगत् यज्जगज्जगदिज्जगदक्ष्मम यक्ष्मञ्जदिज्जगदक्ष्मम् जगदयक्ष्मम यक्ष्मञ्जगज्जगदयक्ष्मगुम् सुमना सुमन अयक्ष्मञ्जगज्जगदयक्ष्मगुम् सुमनाः अयक्ष्ममयक्ष्मगुम् सुमना असदसत्सुमना अयक्ष्ममयक्ष्मगुम् सुमना असत् सुमना असदसत् सुमनाः सुमना असत् सुमना इति सु मनाः असदेत्यसत् अवो अदध्यवोचदवोचदध्यध्यवोचदधिवक्ताधिवक्ता वोचदध्यध्यवोचदधिवक्ता अवोचदधिवक्ताधिवक्ता वोचदवोचदधिवक्ता प्रथमः प्रथमो अधिभक्ता वोचदवोचदधिभक्ता प्रथमः अधिवक्ता प्रथमः प्रथमो अधिवक्ताधिवक्ता प्रथमो दैव्यो दैव्यः प्रथमो अधिवक्ताधिवक्ता प्रथमो दैव्यः अधिवक्तेत्यधिवक्ता प्रथमो दयैव्यो दैव्यः प्रथमः प्रथमो दैव्योऽभिजग्भिजग् दैव्यः प्रथमः प्रथमो दैव्योऽभिषक दैव्योऽजग्भिजग् दैव्या व्ली दैव्योऽभिजक अहे ग चाहि नहे गश्च सर्वान् सर्वागश्चाहि जम्भयन् सर्वास्सर्वा जम्भयन् सर्वान् सर्वाञ्जम्भयन् सर्वा जम्भयन् सर्वाः सर्वा जम्भयन् जम्भयन् सर्वाश्च सर्वा जम्भयन् सर्वाश्च च सर्वास्सर्वाश्च यातु धान्यो यातु धान्यश्च सर्वास्सर्वास यातु धान्यः च धान्यो यातु धान्यश्च च धान्यः यातु धान्य इति यातु धान्यः असौ यो रोयो असाभसौ यस्ताम्रस्तामरो असाभसौ यस्ताम्रः रोयो यो यस्ताम्र अरुण अरुणस्ता स्ताम्रस्ताम्र अरुण उत अरुण उत तारुण अरुण उत बभ्रर्बभ्र ऋतारुण अरुण उत बभ्रः उत बभ्रर्बभ्र ऋतोत बभ्रस्व मङ्गळस्व मङ्गळो बभ्र ऋतोत बभ्रस्व मङ्गळः बभ्रः सुमङ्गलः सुमङ्गलो बभ्रुर्बभ्रः सुमङ्गळः सुमङ्गळ इति सु मङ्गळः ये च च च च ये ये चेमामिमाञ्च रुद्रा रुद्रा इमाञ्चचे मागुम् रुद्राः रुद्रा रुद्रा इमामिमागुम् रुद्रा अभितो अभितो रुद्रा इमामिमागुम् रुद्रा अभितः रुद्रा अभितो अभितो रुद्रा रुद्रा अभितो दिक्षो दिक्ष्वभितो रुद्रा रुद्रा अभितो दिक्षो अभितो दिक्षु दिक्षभितो अभितो दीक्षु श्रिता श्रिता दिक्षुभितो अभितो दीक्षु श्रिताः दिक्षु श्रिता श्रिता दिक्षु दिक्ष श्रिता सहस्रजः सहस्रज श्रिता दिक्षु दिक्षु श्रिता सहस्रशः श्र सहस्रशः सहस्रश श्रिता श्रिता सहस्रशो वाव सहस्रश श्रिता श्रिता सहस्रशोभ सहस्रशो वाव सहस्रशः सहस्रशो वैजामेषामव सहस्रश सहस्रशो वैषा सहस्रश इति सहस्र शा मे शामै सागुम् हेडो हेड एषा मावै सागुम् हेडहा एषागुम् हेडो हेड एषा मे सागुम् हेड ईमह ईमहे हेड एषा मे सागुम् हेड ईमहे हेड ईमह ईमहे हेडो हेड हे इम इतीमहे असौ यो यो असा वसो यो बसर्पत्यवसर्पति यो असा वसो यो बसर्पति यो बसर्पत्यवसर्पति यायो भसर्पति नीलग्रीवो नीलग्रीव बसर्पतियायो भसर्पति अपसर्पति नीलग्रीवो नीलग्रीवो नीलग्रीवो विलोहितो विलोहितो नीलग्रीवो नीलग्रीवो विलोहितः नीलग्रीव इति नीलग्रीवः विलोहित इति वि लोहितः उतैनमेन मुतोतैन गोपा गोपा येन मुतोतैनम् गोपाः nango gopa ename nango gopa adrshan adrshan gopa ename nango gopa adrshan gopa adrshan adrshan gopa gopa adrshan adrshan adrshan adrshan gopa gopa adrshan adrshan gopa gopa adrshan adrshan adrshan adrshan gopa gopa adrshan adrshan gopa itiko पाः अदृशन्नदृशन्नदृशन्नदृशन्नदृशन्नदृशन्नुदहार्य उदहार्यो अदृशन्नदृशन्नदृशन्नदृशन्नुदहार्यः अदृशन्नुदहार्य उदहार्यो अदृशन्नदृशन्नुदहार्यः उदहार्य इत्युद हार्यः ूतैनमेनमुतोतैनम् विश्वा विश्वैनमुतोतैनम् विश्वा एनम् विश्वा विश्वैनमेनम् विश्वा भूतानि भूतानि विश्वैनमेनम् विश्वा भूतानि विश्वा भूताूता सूता नि विश्वा भूताूता सूता स भूता स धृष्टो धृष्टः मृढयाति मृडयाति धृष्ट स मृढयाति दृष्टो मृढयाति मृडयाति धृष्टो धृष्टो मृढयाति नो नो मृडयाति धृष्टो धृष्टो मृढयाति नः मृडयाति नो नो मृडयाति मृडयाति नः नमो अस्त्वस्तु नमो नमो अस्तु नीलग्रीवाय नीलग्रीवायास्तु नमो नमो अस्तु नीलग्रीवाय अस्तु नीलग्रीवाय नीलग्रीवायास्त्वस्तु सहस्राक्षाय मेढुसे मेढुसे सहस्राक्षाय नीलग्रीवाय नीलग्रीवाय सहस्राक्षाय मेढुषे नीलग्रीवायेति नील सहस्राक्षाय मेढुसे मेढुसे सहस्राक्षाय सहस्राक्षाय मेढुषे सहस्राक्षायेति सहस्र अक्षाय मीधुष इति मीधुषे अथो ये येथो अथो ये अस्यास्य येथो अथो ये अस्य अथो इत्यथो ये, अस्या, अस्या ये अस्यास्य ये ये अस्य सत्त्वानः सत्त्वानो अस्य ये ये अरस्य सत्त्वानः अस्य सत्त्वानः सत्त्वानो अस्यास्य सत्त्वानोऽहमहगम् सत्त्वानो अस्यास्य सत्त्वानोऽहम् सत्त्वानोऽहमहगुम् सत्त्वा नः सत्त्वा नोहन्तेभ्यस्तेभ्योऽहगुम् सत्वा नः सत्त्वा नोहन्तेभ्यः स्तेभ्यो नमो नमो नमः अकरम् नमो नमो नमः नमै नमः प्रमुञ्च मुञ्च धन्वनो धन्वनो मुञ्च धन्वनो धन्वनो मुञ्च मुञ्च धन्वनस्त्वम् त्वम् धन्वनो मुञ्च मुञ्च धन्वनस्त्वम् धन्वनस्वन्त्वम् धन्वनो धन्वनस्त्वमुभयोरुभयोस्त्वम् धन्वनो धन्वनस्त्वमुभयोः मुभयौरुभय स्वन्तमुभयो रात्ौ रात्ौरुभय स्वन्तमुभयो रात्ौ उभयौरात्ौ रात्योरुभयोरुभयरा यायाश्च ते ते चयायाश्च ते चचुते हस्ते हस्ते ते चचते हस्ते ते हस्ते हस्ते ते ते हस्त इषव इषवो हस्ते ते ते हस्त इषवः हस्त इषभ इशभो हस्ते हस्त इशवः परा परेशभो हस्ते हस्त इशवः परा इषवः परा परेशभ परातास्ताः परेशभ इशवः पराताः पराता परा पराता भगवो भगवस्ताः परा पराता भगवः ता भगवो भगवस्तास्ता भगवो वपव भगवस्तास्ता भगवो वप भगवो वपवप भगवो भगवो पप भगव इति भग वपेति बप पतत्यधनुर्धनुरवतत्यावदत्यधनुस्त्वन्त्वन्धनुरवतत्या वदत्यधनुस्त्वम् तत्या धनुस्त्वन्त्वन्धनुर्धनुस्त्वगुम् सहस्राक्ष सहस्राक्ष त्वगम् सहस्राक्षसहस्राक्षत्वन्त्वगम् सहस्राक्षसते सुधे सते सुधे सहस्राक्ष त्वन्त्वगम् सहस्राक्षसते सुधे सहस्राक्षसते सुधे सते सुधे सहस्राक्षसहस्राक्षसते सुधे सहस्राक्षेति सहस्र अक्ष सते सुध इति सत इषुधे निशेर्यशल्याणाकम् सल्याणान् निशेर्यनिशेर्यशल्याणाम् मुखामुखा शल्याणानिशेर्यनिशेर्यशल्याणाम् मुखा निशेर्येति नि शेर्य शल्याणाम् मुखामुखा शल्याणागुम् शल्याणाम् मुखा शिव शिवो मुखा शल्याणागुं शल्याणाम् मुखा शिवः मुखा शिवो मुखा मुखा शिवो नो नः मुखा मुखा शिवो नः शिवो नो न शिव शिवो नः सुमना सुमना नः शिव शिवो नः सुमना नन सुमना सुमना नो नः सुमना भव भव सुमना नो नः सुमना भव सुमना भव सुमना सुमना भव सुमना ईसो मना भवेति भव विजन्धनुर्धनुविज्यम् विज्यन्धनः कवर्दिनः कपर्दिनो धनुर्विज्यम् विज्यन्धनः कपर्दिनः व्यज्यमिति विज्यम् धनः कपर्दिनः कपर्दिनो धनर्धनः कपर्दिनो विशल्यो विशल्यः कपर्दिनो धनुर्धनः कपर्दिनो विशल्यः कपर्दिनो विशल्यो विशल्यः विशल्यो बाणवान् बाणवान् विशल्यः विशल्यो बाणवान् विशल्यो बाणवान् बाणवान् विशल्यो विशल्यो बाणबागुम् उतोत बाणवान् विशल्यो विशल्यो बाणबागुम् उत विशल्यैरिवी शल्यः बाणबागुम् उतोत बाणवान् बाणवागुम् उत बाणवाणिरि बाण वाणे ुत अनेशन्नस्यानेषन्ननेशन्नस्येषव इशवो अस्या नेषन्नणेषस्ये शवः अस्येषव इशवो अस्यास्येषव आहुराभुरिषवो अस्यास्येषव आहो इश आहुराभुरिषव शब आभुरस्याभुरिषब इशब आभुरस्य आभुरस्याभुराभुरस्य निषङ्गथिर्निषङ्गधिरस्याभुराहुरस्य निषङ्गथिः अस्य निषङ्गथिर्निषङ्गधिरस्यास्य निषङ्गथिः निषङ्गथिरिति याते ते यायाते हेतिर्हेतिस्ते यायाते हेतिः ते तिर्हेतिस्ते ते हेतिर्मीढुष्टममेढोष्टमहेतिस्ते ते हेतिर्मीढुष्टम हेतिर्मीढोष्टममेढोष्टमहेदर्हृतर्मीढोष्टम हस्ते हस्ते मेढोष्टमहेतर्हे धर्मीढोष्टम हस्ते मेढोष्टम हस्ते हस्ते मेढोष्टम मेढोष्टम हस्ते बभूव बभूव हस्ते मेढोष्टम मेढोष्टमहस्ते बभूव मेढोष्टमेति मेधुः हस्ते बभो व हस्ते हस्ते बभूवते ते बभोव हस्ते हस्ते बभूवते बभूवते ते बभूव बभूवते धनुर्धनुस्ते बभोव बभूवते धनुः ते धनुर्धनुस्ते ते धनुः धनुरिति धनुः तयास्मानस्मान् तया तयास्मान् विश्वतो विश्वतो अस्मान् तयातयास्मान् विश्वतः अस्मान् विश्वतो विश्वतो अस्मानस्मान् विश्वतस्त्वम् त्वम् विश्वतो अस्मानस्मान् विश्वतस्त्वम् विश्वतस्त्वम् त्वम् विश्वतो विश्वतस्त्वमयक्ष्मया यक्ष्मया विश्वतो विश्वतस्त्वमयक्ष्मया त्वमयक्ष्मया यक्ष्मया त्वम् त्वमयक्ष्मया परि परि यक्ष्मया परि पर्ययक्ष्मया यक्ष्मया परिभुज भुज पर्ययक्ष्मया यक्ष्मया परिभुज <गाँगाँ> परिभुज भुज परि परिभुज भुजे भुज नमस्ते ते नमो नमस्ते अस्वस्तु ते नमो नमस्ते अस्तु ते अस्त्वस्तु ते ते, ते ते अस्त्वायुधायायुधायास्तु ते ते अस्त्वायुधाय अस्त्वायुधायायुधाया स्वस्त्वायुधायाणातयानाततायायुधाया स्तवायुधायानातताय आयुधायाणाततायानाततायायुधायायुधायानातताय ततायायुधायायुधायानातताय धृष्णवे अणातताय धृष्णवे धृष्णवे नातताय नातताय धृष्णवे अणाततायेत्यना त्वताय धृष्णव इति धृष्णवे उभाभ्यामुतोतभाभ्यामुभाभ्यामुततेत भाभ्यामुभाभ्यामुतते उततेत उदोदते नमो नमस्त उदोदते नमः ते नमो नमस्ते ते नमो बाहुभ्याम् बाहुभ्याम् नमस्ते ते नमो बाहुभ्याम् नमो बाहुभ्याम् बाहुभ्याम् नमो नमो बाहु भ्यान्तव तव बाहुभ्याम् नमो नमो बाहुभ्यान्तव बाहोभ्यान्तव तव बाहुभ्याम् बाहुभ्यान्तवधन्वनेधन्वने तव बाहुभ्याम् बाहुभ्यान्तवधन्वने बाहुभ्यामिति बाहो ज्याः तव धन्वने धन्वने तव तव धन्वने धन्वन इति धन्वने परिते परिपरिते धन्वनो धन्वनस्ते परिपरिते धन्वनः ते धन्वनो धन्वनस्ते ते धन्वनो हेतिर्हेतिर्धन्वनस्ते ते धन्वनो हेतिः धन्व नो हेतिर्हेतिर्धन्व नो धन्व नो हेतिरस्मानस्मान् हेतिर्धन्वनो धन्वनो हेतिर्हेतिरस्मान् वृणक्तु वृणक्त्वस्मान् हेतिर्हेतिरस्मान् वृणक्त्व अस्मान् ऋणक्तु वृणक्वस्मानस्मान् वृणक्तु विश्वतो भिश्वतो विश्वतो वृणक्त्वस्मान्नस्मान् वृणक्तु विश्वतः वृणनक्तु विश्वतो विश्वतो वृणक्तु वृणक्तु विश्वतः विश्वत इति विश्वतः अथो यो योऽथो अथो ज अतो य इषुधिषुधिर्यो यषुधिस्तभत वे सुधिर्यो यषुधिस्तव इषुधिस्तभत वेषुधिरिषुधिस्त भार आरे तवे शुधिरिषुधिस्तबारे इषुधिरिषु धी वार आरे तव वारे अस्मदस्मदारेतवत बारे अस्मत् आरे अस्मदस्मदार आरे अस्मन्निन्यस्मदार आरे, आरे अस्मन अस्मन्नि अस्मन्निन्यस्मदस्मन्निधेहि धेहिन्यस्मदस्मन्निधेहि निधेहि धेहिनि निधेहितम् तन्धेहिनि निधेहितम् ेहिदेहितम् तमिति तम् ॐ नमो भगवते रुद्राय नमस्ते ते नमो नमस्ते रुद्र रुद्रते नमो